नातप्तपसा शक्य एष दिव्यो महारथः द्रष्टुम् वाप्यथवा स्प्रष्टुमारोढुम् कुत एव च त्वयि प्रतिष्ठिते साधो रथस्थे स्थिरवाजिनि पश्चादहमथारोक्ष्ये सुकृती सत्पथम् यथा तस्य तद्वचनम् श्रुत्वा मातलिः शक्रसारथिः आरुरोहरथम् शीघ्रम् हयान्ये मे च रश्मिभिः ततोऽर्जुनो हृष्टमना गङ्गायामाप्लुतः शुचिहि जजापजप्यं कौन्तेयो विधिवत्कुरु नन्दनः